निशितांश्चैव दीर्घासीन् परश्वधान परश्वधान् अपरान्तसमुद्भूतांस्तथैव परशूञ्छितान् रसान् गन्धांश्च विविधान् रत्नानि च सहस्रशः बलिञ्च कृत्स्नमादाय द्वारितिष्ठन्ति वारिताः शकास्तुषाराः कङ्काश्च रोमशाः शृङ्गिणो नराः महागजान्दोरगमान् गणितानर्बुदान् हयान् शतशश्चैव बहुशः सुवर्णम् पद्मसम्मितम् बलिमादाय विविधं। द्वारितिष्ठन्ति वारिताः आसनानि महार्हाणि यानानि शयनानि च मणिकाञ्चनचित्राणि गजदन्तमयानि च कवचानि विचित्राणि शस्त्राणि विविधानि च रथांश्च विविधाकारान् जातरूप परिष्कृतान् हयैर्विनीतैः सम्पन्नान् वैयाघ्रपरिवारितान् विचित्रांश्च परिस्तोमान् रत्नानि विविधानि